अत द्वितीयाष्टक द्वितीयप्रश्नप्रारम्भः ओ प्रजयारकामयत प्रजासृजेजेति स जेतम् दशहोतारमपश्यत् तम् मनसानुद्वित्यदर्भ्यस्तम्बेजुहोद ततो वै स प्रजा असृजता तास्मात्सृष्टा आक्रामन् ता ग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् यः कामयेत प्रजायेति स दशहोतारम् मनसानुद्रित्य गर्भस्तम्बे जुहुयात् प्रजापतिर्वै प्रजायते मनसा जुहोति प्रजापतेराप्ती ओर्णयाजुहोति पूर्णयिबि प्रजापतिः प्रजापतेराप्ये न्यूनया जुहोति न्यूनाद्भिः प्रजापतिः प्रजा असृजत प्रजारागम् सृष्ट्यै दर्भस्तम्बे जुहोति एतस्माद्वै योनेः प्रजापतिः प्रजा असृजत यस्मादेव योनेः प्रजापतिः प्रजा असृजत तस्मादेव योनेः प्रजायते ब्राह्मणो दक्षिणत उपास्ते ब्राह्मणो वे प्रजानामुपद्रष्टा उपद्रष्टुमत्येव प्रजायते ग्रहो भवति प्रजारागम् सृष्टानाम् धृत्यैः यम् ब्राह्मणम् विद्याम् विद्वागम् संयशोऽनच्छेत् सोरण्यम् परेत्य गर्भस्तम्बमुद्ग्रथ्य ब्राह्मणम् दक्षिणतो निषाद्य चतुर्होत्रेऽन्व्याचक्षीत एतद्वै देवानाम् परमम् दुह्यम् ब्रह्म यच्चतुर्होतारः तदेव प्रकाशम् गमयति तदेनम् प्रकाशम् गतम् प्रकाशम् प्रजानाम् गमयति दर्भस्तम्बमुद्रथ्यव्याचष्टे अग्निवान वै दर्भस्तम्बः अग्निवत्येव व्याचष्टे ब्राह्मणो दक्षिणत उपास्ते ब्राह्मणो वे प्रजानामुपद्रष्टा उपद्रष्टवत्येवैनम् यशरिच्छति ईश्वरम् दञ्यशोऽर्तोरित्याहुः यस्याम् ते व्याचष्ट इति पास्तस्मै देजः यदेवैनम् तत्र भनमति तदेवावरुन्धे अग्निवादधानो दशहोऽत्रारणिमवदध्यात् प्रजातमेवेन माधत्ते तेनैवोद्भृत्याग्निहोत्रम् जुहुयात् प्रजातमेवैनज्जुहोति हविर्निर्वप्स्यम् प्रजातमे होता रम्या चक्षीत प्रजातमेवेन निर्वपदे सामिधेनेरनुवक्ष्यम् दश होता रम्या चक्षीत सामिधेनेरेव सृष्ट्वारभ्य प्रतनुते अथो यज्ञो वेदश होता यज्ञमेव तनुते भिचरन् दशहोतारञ्जुः यात् न वै पुरुषे प्राणाः नाभिर्दशमे स प्राणमेवैनमभिचरति एतावद्वै पुरुषस्य स्वम् यावत्प्राणाः यावदेवास्यास्ति तदभिचरति सुकृतगिरिणे जहोति प्रदरेवा एतद्वा अस्यै निरऋतिगृहीतम् निरृतिगृहीत एवरृत्याग्राहयति यद्वाचः क्रूरम् तेन पशक् करोति वाच एवम् क्रूरेण प्रविश्यति ताजगार्तिमार्च्छति प्रजापर्यगामयदर्शपूर्णमासोऽ सृजेति स एतम् चतुर्होतारमपश्यत् तम् मनसा रुदृत्याह वलीये जुहोरे ततो वी सदर्शपूर्णमासावसृजत तावस्मात्सृष्टावपाक्रामताम् तौ ता ग्रहेणा ता गृह्णात् त्वद्ग्रहस्य ग्रहत्वम् दर्शपूर्णमासावा लभमानः चतुर्होतारम् मनसानुदृत्याः वलीये जुहुयात् दर्शपूर्णमासावेव सृष्ट्वारभ्य प्रतनुते ग्रहो भवति घर्षपूर्णमासयो सृष्टयोर्धृत्यै सोकामयत चा दुर्मास्यानि सृजेयेति स एतम् पञ्चहोतारमपश्यत् तम् मनसानुदृत्याहवनीये जुहोद् ततो वै स च दुर्मास्यान्यसृजत तान्यस्मात्सृष्टान्यपाक्रामन् तानि ग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् चादुर्मास्यान्यालभमानः पञ्चहोदारम् मनसानुदृत्या हवनीये जुहुयात् चादुर्मास्यान्येव सृष्ट्वारभ्य प्रतनुते ग्रहो भवति चादुर्मास्यानागुम्सृष्टानाम् धृत्यै सोऽगामयतपशुबन्धगम् सृजेति स एतगुम् षड्ढोतारमपश्यत् तम् मनसानुद्रुत्याह वनीये जुहोत् ततो वै स पशुबन्धमसृजत सोऽस्मात्सृष्टोपाक्रामत् रङ्ग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् पशुबन्धेन यक्ष्यमाणः षड्ढोतारम् मनसानुद्रुत्याः वनीये पशुबन्धमेव सृष्ट्वारभ्यः प्रतनुते ग्रहो भवति पशुबन्धस्य सृष्टस्य धृत्यै सोऽकामयत सौम्यमद्धरगम् सृजेति स एतगुम् सप्तहोतारमपश्यत् तम् मनसानुधृत्याहवनीये जुहोत् ततो वै सौम्यमद्धरमसृजत सोऽस्मात्सृष्टोपाक्रामत् तम् ग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् सप्तहोतारम् मनसादुदृत्याह वनीये जुहुयात् सौम्यमेवाध्वरकम् सृष्ट्वारभ्य प्रतनुते ग्रहो भवति सौम्यस्याध्वरस्य सृष्टस्य धृत्यै देवेभ्यो दे वै न प्राभवत् तमेतावच्छः समभरन् यत्सम्भाराः ततो वैतेभ्यो यज्ञः प्राभवत् यत्सम्भारा भवन्ति यज्ञस्य प्रभूत्यै आतिथ्यमासाद्यव्याचष्टे यज्ञमुखम् वातिथ्यम् मुखत एव यज्ञकम् संहृत्य प्रतनुते न यज्ञो वा एषः यो पत्नीकः न प्रजाः प्रजायेरन् आत्नीर्व्याचष्टे प्रजानाम् प्रजननाय उपसत्सव्याचष्टे एतद्वैपत्नीनामायतनम् स्वदेवैना आयतनेव कल्पयति प्रजापजरकामयतः प्रजादेजेति स तपो तप्यत समृथग्निस्तोममसृजत तम् पञ्चदशस्तोमो मध्यत उदतृणतौपो गर्वपक्षश्च परपक्षश्च भवताम् पूर्वपक्षम् देवा अन्वसृज्यन्त अपरपक्षमन्वसुराः ततो देवा अभवन् परासुराः यम् कामयेदसीयान् स्यादिति तम् पोर्वपक्षे याजयेत् वसीयानेव भवति यङ्कामयेतपापीयाम् स्यादिति तमपरपक्षे याजयेत् पापीयानेव भवति तस्मात् पूर्वपृक्षोपरपक्षात्कर्ण्यतरः प्रजापतिर्वै दशहोता चतुर्होता पञ्चहोता षड्ढोता सप्तहोता ऋतवः संवत्सरः प्रजाः लोकाः य एवम् प्रजापतिम् वहोर्भूयागम् संवेद बहोरेव भूयाम् भवति प्रजापतिर्देवासुरा न तम् देवा अब्रुवन् इन्द्रन्न जनयेति सोऽब्रवीत् यथाहम् युष्मागस्तपसा सक्षि एवमिन्द्रम् जनयध्वमिति ते तपो तप्यन्त स आत्मन्निन्द्रमपश्यन् तमब्रुवन् राजस्वेति सोऽब्रवीत् किम्भागभेदमभिजनिष्य इति ऋतोन् संवत्सरम् प्रजाः पशून् इमाल्लोकानित्यब्रुवन् तम् वैमाहुत्या प्रजनयतेत्यब्रवीत् तम् चतुर्होत्रा प्राजनयन् महाजायेतेति स चतुर्होतारञ्जुहयात् प्रजापतिर्वै प्रजापतिरेव भूत्वा प्रजायते जनदिन्द्रमिन्द्रियाय स्वाहेति आस्य जायते वीरगुम् हि देवा एतया हुत्या प्राजनयन् आदित्याश्चाङ्गिरसश्च सुवर्गे लोके स्पर्धन्त भयम् पूर्वे सुवर्गम् लोकमिजाम भयम् पूर्व इति एतम् पञ्चहोदारमपश्यन् तम् पुरा प्रातरणवागादाग्नीध्रेजुहौः ततो वै ते पूर्वे सुवर्गम् लोकमायान् यः सुवर्गकामः स्यात् स पञ्चहोतारम् पुराप्रातरणवागादाग्नेध्रेजुभूयात् संवत्सरो वै पञ्चहोता संवत्सरः लोकः संवत्सर एवर्तुषु प्रतिष्ठाय सुवर्गम् लोकमेति ते ब्रुवन्नङ्गिन स भ्यो हव्यम् वक्ष्याम इति छन्दःसित्यब्रुवन् गायत्र्याम् दृष्टुभिजगत्यामिति तस्माच्छन्दः सु सद्भ्य आदित्येभ्यः आङ्गेरसे प्रजा हव्यम् वहन्ति वहन्त्यस्मै प्रजाफलेम् ऐनवप्रतिख्यातम् गच्छति य एवम् वेद पञ्चर्तवः त्रय लोकाः असा वादित्य एकविदुंशः एतस्मिन्वा एष श्रितः एतस्मिन्प्रतिष्ठितः य एवमेतग् श्रितम् प्रतिष्ठितम् वेदा प्रत्येव तिष्ठति प्रजापतिरकामयत प्रजा, प्रजा येजेति स एतम् दशहोतारमपश्यत् तेन दशधात्मानम् विधाय दशहोत्रादप्यत तस्य चित्तिस्रुगासीत् चित्तमाज्यम् तस्यैतावत्येव वागासीयेत् एतावा यज्ञक्रतुः हो स चतुरहोतारमसृजत सोऽन्दत् तस्य सोमा हविरासीयेत् स चतुर्होत्रा तप्यत सोऽताम्यत् स भोरितिव्याहरत् स स्वोताम्यत् सभुवर्यज व्याहरत् सोऽन्तरिक्षमसृजत चातुर्मास्यानि सामानि स हृतीयमतप्यत स्वोताम्यत् स सुवर्ज व्याहरत् स दिवमसृजत अग्निष्टोममुख्यमतिरात्रमृचः एतावे व्याहृतय इमे लोकाः इमान् खलु वै लोकाननु प्रजाः य एवमेताः प्रजापतेः प्रथमा व्याहृतेः प्रजाता वेदा प्रजया पशुभिर्मिथुनैर्जायते स पञ्चहोदारमसृजत स हविर्ना विन्दत तस्मै सोमस्तनुगम् प्रायच्छत् एतत्ते हविरिति स पञ्चहोत्रादप्यत सोऽताम्यत् स प्रत्यङ्गबाधत सोऽसुरानसृजत तद्दुर्वर्णगुम् हिरण्यमभवत् तद्दुर्वर्णस्य हिरण्यस्य जन्म सद्वितीयमतप्यत सोऽताम्यत् स प्राङ्गबाधत स देवानसृजत रजस्य प्रियमासीत् तत्सुवर्णगुम् हिरण्यमभवत् तत्सुवर्णस्य हिरण्यस्य जन्म यदेवगुम् सुवर्णस्य हिरण्यस्य जन्म वेद भवति दुर्वर्णोऽस्य भ्रातृव्यः तस्मात् सुवर्णगृम् हिरण्यम् भार्यम् सुवर्ण एव भवति ऐनम् ब्रियम् गच्छति ना प्रियम् सप्तहो तारमसृजत स सप्तहोऽत्रैव सुवर्गम् लोकमेत् तृणवेन स्तोमेनेभ्यो लोकेभ्योऽसुरान् प्राणुदत त्रयस्त्रिवंशेन प्रत्यतिष्ठत् एकविगुंशेन रुचमधत्त सप्तदशेन प्राजायत य एवम् विद्वान् सोमेन यजते सप्तहो त्रैव सुवर्गम् लोकमेति त्रिणवेन स्तोमेनैभ्यो लोकेभ्य भ्रातृव्यान् प्रणदते त्रयस्त्रिपुंशेन प्रतितिष्ठति एकविगुंशेन रुचम् धत्ते सप्तदशेन प्रजायते तस्मात्सप्तदशस्तो मो न निर्हृत्यः प्रजापतिर्वै सप्तदशः प्रजापतिमेव मध्यतो धत्ते प्रजात्यै देवा वै वरुणमयाजयन् स यस्यै यस्यै देवतायै दे दक्षिणामनयत् तावब्लीनात् ते ब्रुवन् यावृत्य प्रतिगृह्णाम तथा नो दक्षिणानवब्लेष्यतीति ेव्यावृत्त्यप्रत्यगृह्णान् ततो वेताम् दक्षिणानाव्रीनान् य एवम् विद्वान् व्यावृत्त्यदक्षिणाम् प्रतिगृह्णाति नैनम् दक्षिणा व्रीनाति राजात्वा वरुणो नयतु देवदक्षिणे नजे हिरण्यमित्याह आग्नेयम् वैहिरण्यम् स्व एवैनद्देवतया प्रतिगृह्णाति सोवायवासमित्याह ौम् यम् वै वासः स्वयैवैनद्देवतया प्रतिगृह्णाति रुद्राजगामित्याह रौद्रे वै गौः स्वयैवैनाम् देवतया प्रतिगृह्णाति वरुणायाश्वमित्याह वारुणो वा अश्वः स्वयैवैनम् देवतया प्रतिगृह्णाति प्रजापतये पुरुषमित्याह प्राजापत्यो पुरुषः स्वयैवैनम् देवतया प्रतिगृह्णाति मनवेदल्पवित्याः मानवो वेदल्पः स्वयैवैनम् देवतया प्रतिगृह्णाति उत्तानाया आङ्गे रसाय न याः इयम् वा उत्तान आ आङ्गे रसः अनयैवे न प्रतिगृह्णाति वैश्वानर्यर्चारथम् प्रतिगृह्णाति स्वदेवैनम् देवतघा प्रतिगृह्णाति दे तेनामृतत्वमस्यामित्याह अमृतमेवात्मम् धत्ते वयो धात्र इत्याह वज एवैनम् धृत्वा स्वर्गम् लोकम् गमयति वयो मह्यमस्तु प्रतिग्रहेत्र इत्याह यद्वै शिवान् अरण्मयः आत्मन एवैषा परेतिः क्वदम् कस्मा अदादित्याह प्रजापतयः स ददाति कामः कामायेत्याह कामे न ददाति कामेन प्रतिगृह्णाति कामो दाता कामः प्रतिगृहीतेत्याह कामो हि दाता कामः प्रतिग्रहीता कामकुम् समुद्र इव हि कामः ने बहि कामस्यान्तोऽस्ति कामेन क्त्वा प्रतिगृह्णामीत्याह येन कामेन प्रतिगृह्णाति स एव लोके काम आगच्छति कामेतत्त एषा ते कामदक्षिणेत्याह काम लोके दक्षिणामिच्छति न प्रतिगृहीतरि विद्वान् दक्षिणाम् प्रति गृह्णाति अन्तो वा एष यज्ञस्य यद्दशममहः दशमेऽहम् सपराज्ञिया ऋग्भिः स्तुवन्ति यज्ञस्यैवान्तम् गत्वा अन्नाद्यमवरुन्धरे तिसृभिस्तुवन्ति त्रयनिमे लोकाः एभ्य एव लोकेभ्योऽन्नाद्यमवरुन्धरे कृष्ण्यवतेर्भवन्ति अन्नम् वै कृष्णि अन्नमेवावरुन्धरे मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनयिबि प्रजापतिः प्रजापते, प्रजापते राज्ञे देवा वै सर्पाः तेषामिजगम् राज्ञी यत्सर्पराज्ञयाग्भ्यः यद स्तुवन्ति अस्यामेव प्रतिष्ठन्ति चतुर्होद्रेण होताव्याचष्टे स्तुतमनुषगं सति शान्त्ये अन्तो वा एष यज्ञस्य यद्दशममः एतत् खलु वै देवानाम् परमम् गुह्यम् ब्रह्म यश्चतुर्होदारः दशमे हग्निश्चतुर्होद्रेऽन्व्याचष्टे यज्ञस्यैवान्तम् गत्वा परमम् देवानाम् गुह्यम् ब्रह्मा तदेव प्रकाशम् गमयति तदेनम् प्रकाशम् गतम् प्रकाशम् प्रजानाङ्गमयति वाचम् यच्छति यज्ञस्य धृत्यै यजमानदेवत्यम् वा अहः भ्रातृव्यदेवत्या रात्रिः अह्ना रात्रिम् ध्यायेत् भ्रातृव्यस्यैव तल्लोकम् वृन्ते यद्दिवा वाचम् विसृजेत् अहर्भ्रातृव्यायोत्सिपुंषेत् त्रिम्भ्रातृव्याजोच्छिगुंशेत् अधिवृक्षसूर्ये वाचम् विसृजति एतावन्तमेवास्मै लोकमुच्छिगुंशति यावदादित्योस्तनेति प्रजापतिः प्रजासृजता ताः सृष्टाः समशृष्यन् ता रूपेणानुप्राविशत् तस्मादाहुः रूपम् वै तस्मादाहुः नामपे प्रजापतिरिति तस्मादप्यामित्रौ सङ्गत्या नाम् राजेध्वजेते मित्रमेव भवतः प्रजापतिर्देवासुरा न सृजत स इन्द्रमपि न सृजत तम् देवा अब्रुवन् इन्द्रन्नो जनयेति स आत्मन्निन्द्रमपश्यत् तमसृजत तम् दृष्टव्यीर्यम् भूत्वा न तस्य वज्रः पञ्चदशो हस्तः आपद्यत एदोदय्यासुरानभ्यभवत् य एवम् वेदा अभिभ्रातृव्यान् भवति ते देवासुरैर्विजित्य स्वर्गम् लोकवाजान् ते उष्ण्यम् लोकेऽभ्य ते ब्रुवन् अमुतः प्रदानम् वा उपदिजि विमेति ते, ते, ते सक्तःदारण्यज्ञम् विधायास्य आङ्गेरसम्प्राहिणवान् एतेनामुत्र कल्पयेति तस्य वा इयम् वृत्तिः यदिदम् किञ्च य एवम् वेद कल्पतेऽस्मै स वा अयम् मनुष्येषु यज्ञः सक्तहोता अमुत्र सद्भ्यो देवेभ्यो हव्यम् वहति यदेवम् वेद उपैनम् यज्ञो अभिवाने यस्माल्लोकादमम् लोकम् गमिष्यन्त इति स वाचस्पते हृदि दिव्याहरत् तस्मात्पुत्रो हृदयम् तस्मादस्माल्लोकादमम् लोकन्नाभिकामयन्ते पुत्रो हि हृदयम् देवा वै चतुर्होद्रभिर्भ्यमतम्वत ते विपात्मना भ्रातृव्येणाजन्त अभिसुवर्गम् लोकमजयन् एवम् विद्वागिश्चतुर्होदर्भिर्यज्ञम् तनुते विपात्मनाभ्राद्रव्येण जयते अभिसुवर्गम् लोकम् जयति षड्ढोत्राप्रायणीयमासादयति अमुष्मै वै लोकाय षड्ढोताफलता एतत्सोमम् यदभिशृण्वन्ति रिथैवै नमम् लोकम् गमयति चतुर्होत्रातिथ्याम् यशो वै चतुरहोता यश एवात्मम् धत्ते पञ्चहोत्रा पशुमुपसादयति स्वर्गो वै पञ्चहोता यजमानः पशुः यजमानमेव सुवर्गम् लोकम् गमयति ग्रहाम् गृहीत्वा सप्त होतारञ्जहति इन्द्रियम् वै सप्त होता इन्द्रियमेवात्मम् धत्ते यो वै चतुर्होदेन स वनम् तर्पयति तप्यते प्रजया पशुभिः उपैरवम् समपे च नमति महिष्पवमाने दश होतारम् व्याचक्षीता माध्यन्दिने पवमाने चतुर्होतारम् आग्भवे पवमाने पञ्चहोतारम् इदृयज्ञे षड् गिज्ञायज्ञयस्य स्तोत्रे सप्तहोदारम् अनुशवनमेवेनागुस्तर्पयति तृप्यति प्रजया पशुभिः वैनगुंसोमपि चो नमति देवाभिः चतुर्होद्रभ्यः सक्रमासद वृद्धिपरिमितम् यशस्कामाः ते ब्रुवन् नः प्रथमै सोमश्चतुर्होत्रा अग्निः पञ्चहोत्रा धाता षड्ढोत्रा इन्द्रः सप्तहोत्रा प्रजापदर्दशहोत्रा केषागुम् सोमगुम् राजानै यशार्चत् तन्यकामयत तेनापाक्रामत् तेन प्रलायमचरत् तम् तत्प्रेषाणाम् प्रेषत्वम् निवेद्यन्यवेदयन् तन्निविदान्निवित्वम् आप्रीभिराप्नुवन् तदाप्रीणामाप्रित्वम् तमघ्रन् तस्य यशोऽभ्यगृह्णत ते ग्रहा अभवन् तद्ग्रहाणाम् ग्रहत्वम् यस्यैवम् विदशाग्रहा तस्य ते वृहेताः ते ब्रुवन् यो वै नः श्रेष्ठोऽभूत् तमवभिष्म पुनरिमगम् सुबामः इति तञ्छन्दोभिरसुवन्त तच्छन्दसाम् छन्दस्त्वम् साम्नासमानयन् तत्साम्न्रः सामत्वम् उक्थैरुदस्थापयन् तदुक्थानामुक्थत्वम् यदेवम् वेदा प्रत्येव तिष्ठति सर्वमायुरेति सोमो वै यशः य एवम् विद्वान् सोममागच्छति यश एवै नृच्छति तस्मादाहुः यश्चैवम् वेद यश्च न तामुभो सोममागच्छतः सोमो हि यशः तम् तावयशऋच्छतीत्याहुः यः सोमे सो तस्मात् सोमे सोमः प्रोच्यः यश देवेन मृच्छति विलम्बा किञ्चनासीत् न द्यौरासीत् न पृथिवी तस्यामिति तदप्यत तस्मात्ते पानाद्भूमोऽजायत तद्भूयो तप्यत तस्मात्ते पानादग्निरजायत तद तस्मा पाना तद्भूयोदप्यत तस्मात्ते पानाज्योतिरजायत तद्भूयोदप्यत तस्मात्ते पानादर्चिरजायत तद्भूयोदप्यत तस्मात्ते पानान्वरीचयोजायन्त तद्भूयोदप्यत तस्मात्ते पानादुधारा अजायन्त तद्भूयोदप्यत तदभ्रमिवसमहन्यत तद्वस्तिमभिनत् स समुद्रोऽभवत् तस्मात् समुद्रस्य न पिबन्ति प्रजा इव हि मन्यन्ते तस्मात्मशोर्जायमानादापः पुरस्ताद्यन्ते तद्दश होतान्वसृज्यत प्रजापतिर्वै दश होता य एवम् तपसो तद्वा इलमापः रोदे प्रजापतिः स कस्माग्नि यद्यस्या अप्रतिष्ठाया इति यदत्स्ववापद्यत सा प्रसव्यभवत् यद्व्यमृष्टा तदन्तरिक्षमभवत् यदोर्ध्वमुदमृष्टा साद्यौरभवत् यदरोदे तदनयोरोदस्त्वाम् य एवम् एतद्वा एषाम् लोकानाम् जन्म य एवमेषाम् लोकानाम् जन्म वेद नैष लोकेष्वार्थिमार्झति स इमाम् प्रतिष्ठामविन्दत स इमाम् प्रतिष्ठाम् यत्त्वा कामयतः प्रजा येजेति स तपोदप्यत सोऽम् दर्वानभवत् स दघनादसुरानसृजत यास्य सा तनोरासेत तामपाहता सा तमिस्राभवत् स्वकामयतः प्रजा येजेति स तपोदप्यत सोऽम् दर्वानभवत् स प्रजननादेव प्रजा असृजत तस्मादिमा भूयिष्ठाः यास्य सा तनोरासेयेत् तामपाहता सा जोत्सा भवत् सोऽकामय त प्रजा यजेति स तपोदप्यता सोऽगर्वा न भवत् स उपपक्षाभ्या मे वर्तो न सृजत तेभ्यो पात्रे घृतमदुहत् यास्य सा तनूरासीत् तामपाहत सोऽहो रात्रयोसन्धिरभवत् तव कामय तप्रजा सदपादप्यत सोऽहम् दर्वानभवत् समुद्देवानसृजत तेभ्यो हरिते पात्रे सोमवदुहत् यास्य सा धनोरासीयेत् तामपाहता तदहरभवत् एते वै प्रजापतेर्दोहाः य एवम् वेद दुह एव प्रजाः दिवावै नो भूदिति तद्देवानाम् देवताम् य एवम् देवानान्दे भक्वम् वेद देववानेव भवति एतद्वा अहोरात्राणाम् जन्म य एवमहोरात्राणाम् जन्म वेद नाहोरात्रेष्वार्थिमार्जति असरोधिमनोऽसृज्यत मनः प्रजापतिमसृजत प्रजापतिः प्रजा असृजत तद्वा इदम् मनस्येव परमम् प्रतिष्ठिताम् यदितच्छोभस्य सन्नाम ब्रह्म युच्छन्ति व्युच्छन्त्यस्मै वस्य सेवस्य सेभ्युच्छति प्रजायते प्रजया पशुभिः प्रपरमेष्ठिनामात्रामाप्नोति य एवम् वेदा प्रजापतिम् ब्रमसुचा वरम् देवानाम् त्वम् ब्राहिणात् दे परे एतेषाम् देवानामधिपतिवेधीति तम् देवा अब्रुवन् कस्त्वमसि वयम् वै त्वच्छ्रेयागुम् स स्म इति सोऽब्रवीर कस्त्वमसि वयम् वै त्वच्छ्रेयागुम् स स्म इति मा देवा अवोचन्विति अथवा इरम् तर्हि प्रजापतौ हर आसीत् यदस्मिन्नादित्ये तदेन मब्रवीर एतन्मे प्रयच्छा अथाहमेतेषाम् वेदानामधिपतिर्भविष्यामीति को हज्ञस्यामित्यब्रवीत् एतत्प्रदायेति एतत्स्यामित्यब्रवीत् यदेतद्ब्रवीषीति को ह वै नाम प्रजापतिः य एवम् वेदा विधुरेण नाम्ना तस्मै रुक्मम् कृत्वा प्रत्यमुञ्चत् ततो बाल इन्द्रो देवानामधिपतिर्भवत् य एवम् वेद अधिपतिरेव अधिपति समानानाम् भवति सो मन्यत किम् किम् वा अकरमिति स चन्द्रम् वा आहरेति प्रालपत् तच्चन्द्रमसश्चन्द्रमस्ताम् य एवम् वेद चन्द्रवा भवति तम् देव अब्रुवन् सुमीर्य मर्या यथा तत्सौर्यस्य सौर्यत्वम् य एवम् वेद नैनम् बभ्नोति कश्चनास्मिन् वा इदमिन्द्रियम् प्रत्यस्थादिति तदिन्द्रस्येन्द्रत्वम् य एवम् भवति अयम् इदम् परमो भोदिति त्वत्परमेष्ठिणः परमेष्ठित्वम् य एवम् वेद परमाभेव काष्ठाम् तम् देवाः समन्तम् वर्यविशम् वसवः पुरस्तात् रुद्रा दक्षिणतः आदित्याः पश्चात् विश्वे दे। देवा उत्तरतः अन्त्यरसः प्रत्यञ्चम् साध्याः पराञ्चम् य एवम् वेद उपैरगुंसमानाः सम्विशन्ति स प्रजापतिरेव भूत्वा प्रजा, प्रजा आवयत् अस्मैनातिष्ठन्तान्नाद्याय ता तामुखम् ता पुरस्तात् पश्यन् देः दक्षिणतः पर्यायन् स दक्षिणतः पर्यवर्तयत तामुखम् ता पुरस्तात् पश्यन्तेः मुखम् दक्षिणतः पश्चात्पर्यायन् स पश्चात्पर्यवर्तयत तामुखम् ता पुरस्तात् पश्यन्तेः मुखम् दक्षिणतः मुखम् पश्चात् उत्तरतः पर्यायन् स उत्तरतः पर्यवर्तयत तामुखम् पुरस्तात् पश्यन्तेः मुखम् दक्षिणतः मुखम् पश्चात् मुखमुत्तरतः ऊर्ध्वा उदायन् स उपरिष्टान्यवर्तयत ताः सर्वतो मुखो भो प्रावयत् ततो वैतस्मै प्रजा अतिष्ठन्तान्नाद्याय यदेवम् वेदान् परिच वर्तयते नि प्रजापतिरेव भूत्वा प्रजा अत्ये तिष्ठन्ते स्मै प्रजा अन्नाद्याय अन्नाद एव भवति प्रजापतिरकाम यदहोर्भूयान् स्यामिति स एतम् कस्य प्रयुक्ति बहोर्भूजान्भवत् यः कामयेत बहोर्भूजान्स्यामिति सदश होतारम् प्रयुञ्जीत बहोरेव भूयान् भवति स कामयत वीरो महाजायेतेति सदश होतश्चतुरहोतारम् निरविमीत तम् प्रायुङ्क्ता कस्य प्रयुक्तीन्द्रो जायत यः कामयेत वीरो महाजायेतेति स च आस्य वीरो जायते स कामयतपशुवान् स्यामिति स च गुरुहोतः पञ्चहोतारम् निरमिमीत तस्य प्रयुक्त्यपशुमानभवत् यः कामयेतपशुवान् स्यामिति स पञ्चहोतारम् प्रयुञ्जीत पशुवानेव भवति स कामय कार्तको मे गल्पे स पञ्च होदःषड्भोतारम् निरमिमीत तम् प्रायुङ्क्त तस्य प्रयत्कृतवोऽस्माकल्पमन्दा यः कामये पार्तवो मे कल्पेरण्मिति स षड् भोतारम् प्रयुञ्जेत कल्पन्ते स्मा ऋतवः स्वकामयत सोमपःसोमयाजी स्याम आमे सोमपः सोमयाजीचाजेतेति षड्भोतः सप्तहोतारम् निरमिमीत तम् प्रायुङ्क्त तस्य प्रयुक्त्य सोमपःसोमयाज्य भवत् आस्य सोमपःसोमयाज्यजायत यः कामयेत सो मपःसोमयाजी का स्याम् आमे सोमपःसोमयाजी जायेतेति सहोदारम् प्रयुञ्जीत सोमप एव सोमयाजीभवति आस्य सोमपः सोमयाजीजायते जायते वा एष पशुः पञ्चधा प्रतिष्ठति ते देवाः पशो न मित्वा सुवर्गम् लोकमायन् हे मुष्म्यम् लोकेऽक्षुभ्यन् ते ब्रुवन् अमृतः प्रदानम् वा उपजिजी ते सप्तहोदारम् यज्ञम् विधायास्य आङ्गीरसम्प्राहिण्वान् एतेनामुत्र कल्पयेति तस्य वा इयम् लप्तिः यदिदम् किञ्च य एवम् वेद कल्पतेऽस्मै सः अयम् मनुष्येषु यज्ञः सप्त होता अमुत्र सद्भ्यो देवेभ्यो हव्यम् वहति य एवम् वेद यज्ञो रमति यो वै चतुर्होदृणान्निदानम् वेद निदानवान् वे भवति अग्निहोत्रम् वेदश होतुर्निदानम् दर्शपूर्णमासौ चतुर्होतः चातुर्मास्यानि पञ्चहोतः पशुबन्धः षड् होतः हो सौम्याध्यरः सप्तहोतः ष्टे द्वीय प्रश्न स